श्रीमद्भागवतमहापुराणं पञ्चमस्कन्धम् अष्टविंशोऽध्यायः नरको की विभिन्नगतिं का वर्णन् राजवाच महर्ष एतद्वैचित्रं लोकस्य कथं व्यते श्रृगत्वात् कर्तु श्रद्धया कर्मगतयः प्रतिग्धाः सर्वा एव सर्वस्य तारतम्येन भवन्ति अथेदानीं प्रति सिद्धलक्षणस्य धर्मस्य तथैव कर्तु श्रद्धया वै स्यात् स्यात् या शाद्य विद्यया कृतकापानां तत्परिणामलक्षणाः श्रुतयसहस्रस प्रवृत्तास्तासां प्राचुर्येणानुवर्णयिष्यामः राजवाच नरकानां भगवन् किं ते स विशेषा अथवा बहिःस्त्रिलोक्या आहोस्विदन्तराल इति ऋषिर्वाच अन्तराल एव जिगद्यास्तोदिषि दक्षिणस्याम् अधस्ताद् भूमेरुपरिष्टाच्च जलाद्यस्यम् अग्निस्वात्तादयः यत्रिगणादिशिश्वानां गोत्राणां परमेण समाधिना सत्या एवाशीष आशासानाम् निवसन्ति यथ वा भगवान् पितृराजो वैव स्वतः स्वविषयं प्रापि तेषु स्वपुरुषैजन्तुषु सम्परे तेषु यथा कर्मावद्यं दोषमेवानुलङ्घितं भगवद्दासनसकलो दमं धारयति तत्र हैके नरकादेकविंशतिं गणयन्ति अथ तांसे राजन्नामरूपलक्षणतोऽनुग्रमिष्यामस्ताविस्रोन्द तामिस्रोरौरवो महारौरव कुम्भीपाककालसूत्रम् असिभद्रवनं शोकरं मुखम् अन्धकोपकृमिभोजनसन्दस्तत् सुमित्रेभद्रकण्टकशालि वैतरणी पूयोदप्राणरोधो विससनं लालाभक्षसारमेयादनमविचिरयपानमिति किञ्चारकर्तपो रक्षो गणभोजनशूलप्रोतो दन्तशोको वटनिरोधन पर्यावर्तन शुचिमुखमित्यष्टाविंशतिर्नरका विविधं यातना भूमयः तत्र यस्तो परिवित्तापद्यकलत्राण्यपहरति स हि कालपाशा बद्धो यवपुरुषैरिति नयानकैस्तामिस्रे नरके बलान्निपाद्यते अनशनानुदपान दण्डतार्डनसन्तर्जनादिभिः जातां यातनाभिर्याद्यमानो जर्यद्र कस्मदमासादीत एकदैव मुरुषामुपयाति तामिस्रप्राये एवमेवान्धतामिस्रे यस्तु यञ्च यद्वा पुरुषं दारादीनोपयुक्ते यत्र शरीरे निपात्यमानो यातनास्तो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पते यस्य मालमूलं तस्मादन्धतामिस्रं तमुपदिशन्ति यष्ट्येवा एतदहमिति भूतद्रोहेण केवलं स प्रपुष्णाति स दतिह विहाय स एव तद् शुभेन रौरवे निपतति ये तु यथैवाम्नां विहिंसरा जन्तव परद्रायं यातनामुपगतं त एव रुरुवो भूत्वा तथा तमेव विहिसन्ति तस्माद्गौरवमिद्याहुरुरुरीति सपार्जति क्रूरसद्वस्यापदेश एवमेव महारौरवो यद्र निवततं पुरुषं काव्यादानामरुर्वस्तं क्रव्येण घातयन्ति य केवलं देहम्भरः उग्र पसून उग्रपशूनपक्षिणो वा प्राणत उपरन्धयति करुणं पुरुषादैरपि विगर् विगर्हितम् अमुत्र यमानुचराकुम्भिपाके तप्ततैले उपरन्धयन्ते यस्पृहपद्ये विप्रब्रह्मदुगुं सकालशूत्रसङ्गके नरके अयुतयोजनं परिमण्डले ताम्रमये तप्त खलेम् उपर्यथास्ताग्न्यकाभ्याम् अतीतव्यमालोभिनिवेशितः क्षुत्प्यपासाभ्यां च शरीर आस्ते शीते चेशतेव तिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि यस्पृह वै निजवेदपथाजनापद्यपगतः पाखण्डं चोपगतस्तं तमसि पत्रवनं प्रवेश कस्या प्रहरन्ति यत्र वितस्ततो धावपाल उभयतो धारे स्ताल वनासिपद्रे सिध्यमानसर्वाङ्गो हाहतो हस्मिते परमया वेदनया मृचितपदे पदे नृपते स्वधर्मः पाखण्डानुगतं फलं भुङ्क्ते